ततः समाधाय स वेदपारगो जुहावमन्त्रैर्ज्वलितं हुताशनं युधिष्ठिरं चाप्युपनीयमन्त्रविन्नियोजयामास सहैव कृष्णया प्रदक्षिणं तौ प्रगृहीतपाणीसमानयामास स वेदपारगः ततोऽभ्यनुज्ञायतमाजिशोभिनं पुरोहितो राजगृहाद्विनिर्ययौ क्रमेण चानेन नराधिपात्मजा वरस्त्रियस्ते जगृहुस्तदाकरम् अहन्यहन्युत्तमरूपधारिणो महारथा कौरववंशवर्धनाः इदं च तत्राद्भुतरूपमुत्तमं जगादेवर्षिरतीतमानुषं महानुभावा किल सा सुमध्यमा बभूव कृते विवाहे द्रुपदो महारथेभ्यो बहुरूपमुत्तमम् शतं रथानां वरहेममालिनां चतुर्युजां हेमखलीनमालिनां शतं गजानामपि पद्मिनां तथा शतं गिरीणामिव हेमशृङ्गिणां तथैव दासी शतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजं पृथक् दिव्यदृशां पुनर्ददौ तदाधनं सौम किरग्निसाक्षिकं तथैव वस्त्राणि विभूषणानि भावयुक्तानि महानुभावः कृते विवाहे च ततस्तु पाण्डवाः प्रभूतरत्नामुपलभ्यताम् श्रियम् विजह्रविन्द्रप्रतिमामहाबलाः पुरे तु पाञ्चालनृपस्य तस्यः सर्वेऽप्यतुष्यन्नृपपाण्डवे सा चाप्य याज्ञसे तीं विवर्धयामास मुदम स्वुव्रतम्हाभार वैवाहिक वैवाहिकपर्व द्रौपदी विवाह सप्तवतमोध्याय